मुद्गलपुराणं खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायं फोर्टि फोर् जरत्कारुमन्त्रोपदेशवर्णनं श्रीगणेशाय नमः देवर्षय ऊचुः ब्रह्म नानाविधं प्रोक्तं क्रमार्थं प्राप्तिहेतवे गणेशस्य न सन्देहः पात्रभेदप्रभावदः अग्नीन्द्रकादयः सर्वे ब्रह्मशब्दप्रयाचकाः पुराणेषु तेभ्यो ब्रह्मादयो भवन् पितामहःसमाख्यादो ब्रह्म तेभ्यो मुने कथम् बभूव शम्भुमुख्याश्च भवन्वेदमहामदे इति तेषां वच श्रुत्वा हर्षितो मुनिसत्तमः भृशुण्डी प्रत्युवाचेदं वाक्यं संशयनाशनं भृश्युण्ड्युवाच तत्त्वरूपासमाख्यादा ब्रह्माकारा न संशयः देवौ सर्वत्र संस्थितौ तु पृथ्वीतत्त्वं विनिःसृतम् प्रकृतिर्भूमिराख्यादा गन्धपुरुष उच्यते तयोर्योगेश्विनौ देवौ ब्रह्माकारौ मदौ बुधैः पृथ्वीतत्त्वमयोदेहस्त्रिगुणात्मशरीरिणां ब्रह्मादीनां च ताभ्यां स नात्र संशयः विराड्रूपं पृथिव्यास्तु ताभ्यां जातं न संशयः प्रणवो पृथिवी देहस्तद्धा जातः सुरर्षयः अनेन विधिना ब्रह्मा कथ्यदे शास्त्रवेदिभिः तस्माद्विश्वं समुद्भूतम् तत्र चित्रं न विद्यते नरोश्विनौ समाराध्य जित्वा पृथ्वी भवं भ्रमं पुनः जलतत्वार्थं जलतत्त्वार्थं वरुणं भजदे परम् तदाश्विनौ प्रनष्ठौ च दृष्टौ तेन महात्मना मुख्यम् रुणकं ब्रह्म तस्माज्जातमिदं जगद एवं परम्परामार्गा ब्रह्मरूपा मताः परे इन्द्राद्यास्तत्वरूपस्थास्तत्वयि सम्भावयन्ति ते शिवादिदेहरूपेषु संस्थितास्तत्त्वधारकाः देवा इन्द्रमुखास्तेन तदाधाराशिवादयः गौणमार्गेण देवे शाशम्भ्वादयो बभूविरे संदेहो न सन्देहो मुख्यभावेन देवेन्द्र इन्द्रादयत्समुद्भवाः शिवादिभ्यश्च सम्पूर्ण कलाभिर्नात्र संशयः एवमुक्त्वा महायोगी भृशुण्डी विररामः महा। देवर्षयः प्रणेमुत्स्थं जगुर्हर्षसमन्विताः देवर्षय ऊचुः सर्वसंशयहीनाश्च कृता वयं महामुने त्वया न चित्रमेवेदं गणेशाकाररूपिणा देवर्षयस्ततः स्वस्थलं जग्मुः सुहर्षिताः संशयेन विहीनास्ते भजन्नित्यं गणेश्वरं ब्रह्मोवाच ये दत्ते कथितं वच्च रहस्यं शान्तिदायकं तस्मात्त्वं त्वं गणनाथं तं भज शान्तिमवाप्स्यसि ददौ तस्मै ब्रह्मा मन्त्रं षडक्षरं विधियुक्तम् गणेशस्य सर्वसिद्धिप्रदायकम् कौण्डिन्य उवाच तदो ब्रह्माणमानम्यागमम् चिन्तामणिम् मुदा तपो योगेन विघ्नेशम् मन्त्रेणाराधयन् परम् गदे वर्षशदे देवः प्रसन्नो वरदो भवद आययौ मां वरं दातुं सिद्धि बुद्धिसमन्वितः तं दृष्ट्वा सहस्रोद्धाया पूज्या नम्य गजाननं स्तौमि हर्षेण संयुद्धकौधुमेन महामुने ततो मे वाञ्छितं दत्त्वा योगं योगपदि स्वयं जगामस्वस्थलं विप्रापं खिन्न इव संस्थितः तदाधिगाणपत्योऽहं जातः अभजं तं विशेषेण पत्न्या सदा प्रियां गणेशस्यात्यन्तं दूर्वां ज्ञात्वा महामुने दूर्वाभिरयुतेना पूजयं तं नित्यमादराद मदीयसहगत्वेन किञ्चिच्छुद्धा ब्रविध्वजः आशया मां किमर्थं त्वं तृणानुष्ठानतत्परः भार्याया वचनं श्रुत्वा संशयेन समन्वितं तस्यै गणेश्वरे भक्तिदानार्थं त्वब्रवं वचः दूर्वार्पणेन विघ्नेश सन्धुष्टो जायते परे न तथा द्रव्यकाद्यैश्च वस्त्रैर्नैवेद्यमुख्यकैः विना दूर्वां निराहारो तिष्टदिगणनायकः निष्फला जायते पूजा कृता नानाविधा किल एकदूर्वाङ्गुरम्भक्रिया फलं केन न समर्पये समर्पयेद्गणेशाय तस्मात् तं दूर्वयार्चयेद ततस्तस्याहृदि संस्थः संशयो न जगामः एकदूर्वाङ्गुरं गृह्या ददां तस्यै हिदाय च अवधं गच्छ देवेशं देवेन्द्रं दूर्वया समं सुवर्णं देहि विघ्नेशपूजायां सीतया प्रभो प्रियेण न्यूनमधिकं त्वया ग्राह्यं कदाचन तथेदि नम्यमां सा जगाम देवनायकं तेन सम्भूजिदा देवी जगादमेवचोहितं स इन्द्रो हर्ष चकारविप्रप त्रैलोक्यं कडमध्ये समारोप्यक्रमेण च तथापि दुर्वयातुल्यं तुल्यं बभूव महामुने दृष्ट्वादिखेदसंयुक्तः सस्मारपञ्चदेवपान्तेऽपि स्वपुरः संयुक्ता जग्मुकार्यप्रसिद्धये सर्वे सग्राम सग्रामशस्त्रीकाशिवविष्णुमुखामराः कडे स्थितास्तथा तेऽपि दूर्वया नाभवन् समाः तदस्तैर्मयया सर्वं ब्रह्माण्डं लोकसंगुलं। कडे क्षिप्तं तथा तन्न दूर्वयाच च समं कदा दृष्ट्वा तेभयसंयुक्दा मम शापा च विप्रप आयुश्चाश्रया युक्दा आश्रमे मे सुदुःखिनः प्रणम्य सर्वैर् विधिस्तत्र सर्वैर्जगादशोकदः दासास्ते मुनिशार्दूल दूर्वा पुण्येन वै कृताः एक दूर्वासमं नैव ब्रह्माण्डं भवति प्रभो गणेशपूजने क्षिप्ता त्वया कौण्डिन्यसत्तम एकदूर्वाङ्गुराज्यादं फलं चिन्तामणि स्वयम् दास्यदिते महाभाग न वयं तत्समायदः आज्ञापय करिष्यामो दासास्ते कार्यमुत्तमं नित्यं कार्यकरान् स्वामिन पालयस्व सुरेश्वरान् तेषां पूज्य पूज्यप्राब्रवं वचः विर्धे सर्वैः समायुक्तो गच्छत्वं स्वप्रदं प्रभो नासं दूर्वा भले सकृतो भार्या बोधार्थमञ्चसा कृतं मया महादेव दासोऽहं क्षम्यदामिति तदस्ते सर्वदेवेश ययुः स्वस्वपदं मुदा भार्या मे श्रद्धया युक्ता गाणपत्या भवत्सदा स्त्रिया महाभाग भजामि गणनायकं चित्तस्थिरकृते क्षेत्रे स्थितं चिन्तामणिं मुदा अधस्त्वमपि विप्रेष्य शान्तिमिच्छसि चेत्तदा भज विघ्नेश्वरं तेन योगिवन्द्यो भविष्यसि यवमुक्त्वा ददौ मह्यं मन्त्रं गणपदेः परं षडक्षरं विधानेन पुत्रसर्वार्धदायकम् तं प्रणम्य महाभागमपृच्छम् विनयान्विदः योगप्राप्त्यर्थमत्यन्तम् वचनम् संशयात्मकम् ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते जरत्कारुमन्द्रोपदेशवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ओम्